ते तत्र नियताः कालं कञ्चिदूषुर्नरर्षभाः मात्रा सहैकचक्रायां ब्रह्मणस्य निवेशने पुरुषादं मृकोदरः भीमसेनो महाबाहुः बकं नाम महाबलं तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः निहत्यतरसा नागरान् पर्यसान्त्वयत् ततस्ते शुश्रुवुः कृष्णाम् पञ्चालेषु स्वयंवरां श्रुत्वा चैवाभ्य गच्छन्त गत्वा चैवालभन्ततां ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः विदिताः प्रत्याजग्मुररिन्दमाः ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च भ्रातृभिर्विग्रहस्ता कथं वो भवेदिति अस्माभिः काण्डवप्रस्थे युष्मद्वासो नुचिन्तितः भक्तमहापथम् वासाय खाण्डवप्रस्थं रत्नान्यादाय सर्वशः तत्र तेऽन्यवसन्पार्थाः संवत्सरगणान् बहून् वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः अप्रमत्तोत्थिताः क्षान्ताः हितान् बहून् अजयद्भीमसेनस्तु दिशं महायशाः उदीचीमर्जुनो वीरः क्षिणाम् सहदेवस्तु विजिग्ये परवीरह एवम् चक्रुरिमाम् सर्वे वशे कृत्स्नाम् वसुन्धराम् पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता षट्सूर्यवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः ततो निमित्ते कास्मिश्चिद्धर्मराजो युधिष्ठिरः वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम् अर्जुनं पुरुषव्याघ्रम् स्थिरात्मानं गुणैर्युतं स वै पूर्णं मासं चैकं वने वसन् ततो गच्छधृषि केशं द्वारवत्यां कदाचन लब्धमांस्तत्र बीभत्सु भ्यां लोचनाम् अनुजाम् वासुदेवस्य सुभद्राम्भद्रभाषिणीम् सा शचीवमहेन्द्रेण श्रीकृष्णेनेव सङ्गता सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् बिभत्सुर्वासुदेवेन सहितो नृपसत्तमा नातिभारो पार्थस्य केशवेन सहाभवत् व्यवसायसहायस्य विष्णो शत्रुवधेष्वि वा पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् इषुधी चाक्षयैर्बाणैः रथं च कपिलक्षणं मोक्षयामास यत्र महासुरं स दिव्यां सर्वरत्नसमाचिताम् तस्यां दुर्योधनो मन्दो लोभं चक्रेसु चक्रे ततो ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरं वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशं ततश्चतुर्दशे वर्षे याचमाना स्वकंवसु नालभन्तमहाराज ततो युद्धमवर्तत ततस्ते क्षत्रुत्त्द हवा दुर्योधन नृपंराज्यां विहत भूयिष्ठ प्रत्यपंत पांडवा मेंपुरा वृत्तम क्लिष्टकमण भेदोराज्यनाशा जयश्चय महाभारते आदिपर्ण अंशावत भारतसूत्री तमोध्याय